मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायं तर्टि नैन् च्यवनोत्पत्तिकथनं श्रीगणेशाय नमः मुद्गल उवाच तदो दैत्यपदे राजा राजाप्रह्लादो वैष्णवो भवद सद्वैरं समुत्सृज्य देवै समानिदो बभौ गदेकीयदिकाले जगृहे तस्य महात्मनः विधादा दैत्यराजस्याययौ प्रीत्या प्रजापदे स तु दुष्टैर्महादैत्यै क्रमेण भ्रंशिदोऽसुरः संसर्गदोषयुक्तो भून्नतं मेने पिधामहम् क्रोधेन विधिना तत्र शक्तोऽसौ वैष्णवाधमः ज्ञानं प्रह्लादनष्टं च त्वदीयं प्रभविष्यति प्रह्लादमेवं शक्त्वा निजं विधिः प्रह्लादश्च तदा दैत्याैर्देवानां हनने न नमेने मनसा विष्णुं शम्भुं वामरनायकम् जित्वा देवान् समस्तान् राज्यं चक्रे सुराधिपः प्रह्लादः स ततो देवैर्मित्रभावेन धारितः सहनं कृतमत्यन्तं तद् दौरात्म्यस्य चादराद देवैर्विष्णुसहायैश्च कालेन विजिता बलाद् दैत्या प्रह्लादमत्यन्तं संरक्ष्य सुरनायकैः स्वराज्ये संस्थितं दैत्यं प्रह्लादं च महामुनिः भ्रमन् समाययौ द्रष्टुम् शक्तो गृत्समदो महान् तं दृष्ट्वा दैत्यराजः सप्रणनामहायशाः स्वासने तं समावेश्य पूजयामास भक्तिदः भक्तो मुनिवरं दैत्यपादः उवाच मधुरं वाक्यं प्रह्लादो हर्षसंयुतः प्रह्लाद उवाच धन्यमेद्यकुलं ज्ञानं विद्यादानादिकं च यद तवाङ्घ्रियुगलं दृष्ट्वा पवित्रो नात्र संशयः मुने योगीन्द्रमुख्यस्त्वं तव दर्शनमुत्तमं न भवेत्पापकाराणां भुक्तिमुक्तिक्रमप्रदम् अहं सप्तश्च योगीन्द्र विधिना तेन मोहितः असुरै संवृदोऽत्यन्तं दुष्टकर्मरथो भवम् स्त्रीमध्यादिरदो नित्यं ज्ञानहीनो निरन्तरं देवानां द्वेषबुद्ध्या वै छेदने प्रयदो भवम् अधुना पादपद्मस्य दर्शने नमः मुने ज्ञानस्य स्फूर्तिरल्पा मे सञ्जातानात्र संशयः पूर्वपुण्यबलेनैव जातं ते दर्शनं महद आसुरी प्रकृतिर्मेद्य गदा तेन महामुने वद ज्ञानं महायोगिं स्तारयस्व भवार्णवाद मां वै शरणार्थिनं विप्रशिष्यं तेच च जगद्गुरो मुद्गल उवाच एवं सम्प्रार्थितो दक्ष मुनिर्गृत्समदो महान् कृपया परया विष्टस्तमुवाच विशेषदः गृत्समद उवाच शृणु प्रह्लादवक्ष्यामि ज्ञानं शान्तिसुखप्रदम् गणनाथं भजस्वत्वं विघ्नहीनो भविष्यसि मदासुरश्च दैत्ये सो ते प्रतापवान् आसुरेण स्वभावेन संस्थितो ज्ञानकण्डकः अतस्तमेकदन्तस्य भजनेन जहि प्रभो तदा ज्ञानं दृढं ते वै हृदये संस्थितं भवेद् यदि तस्य वच श्रुत्वा प्रह्लादस्तं पुनर्जगौ कोऽसौ मदासुरः प्रापी हृदयेत्तिष्ठति प्रभो एकदन्तस्य भजनं कीदृशं वदसांव्रदं मदासुरस्य हन्तासौ कथं जादो गजाननः यदत्सर्वं सुविस्तार्य वद मह्यं प्रयाचते शिष्याय सकलं विप्रयेण ज्ञानं दृढं भवेत् मुद्गल उवाच प्रह्लादस्य वच श्रुत्वा मुनिर्गृत्समदोऽ ब्रवीद मदासुरस्य माहात्म्यमेकदन्दाश्रितं प्रभो गृत्समद उवाच शृणु प्रह्लाद पृष्टं तत्सर्वं कथयामि ते चरित्रमेकदन्तस्य सर्वसिद्धिप्रदायकम् एकदा राक्षसः कश्चिद्ययौ भृग्वाश्रमं महान् महाकलश्चिद्रदर्शी समिदर्थं गदे मुनौ स तत्रैकाकिनीं वीक्ष्य भृगुपत्नीं वजो ब्रवीद सुलोमा किं भृगो पत्नी त्वं हि मां वदसाम्प्रदम् मह्यं कन्यामही बालो धातुं स ह्युद्यते भवद् एतस्मिन्नन्तरे कन्या याचिदा भृगुणा भवत् मां त्यक्त्वा भृगवे कन्या दत्ता तेन मही भृदा तस्माद् भृगोर्हरिष्यामि भार्यां चाहं न संशयः तस्य तद्वचनं क्रूरं श्रुत्वा तूष्णीं बभूवः सुलोमासा भृगो पत्नी तदसोऽप्यग्निमब्रवीद राक्षस उवाच अग्ने वदमहाभागत्वं साक्षी सर्वसंमदः इयं पत्नी भृगो किं वान्यस्य सत्यं महाद्युदे राक्षसस्य वच श्रुत्वा न किञ्चित् तं वचो उत्तरं शाभीतोऽस्सौ भव्यवाहप्रताभवान् पुनस्तेन जम्पृष्टोऽग्निर्नोवाच सुदुर्मदिं पुनः प्रष्टस्तदाग्निस्तमुवाचभयसङ्कुलः अजानदानरपृष्ठसंशये प्रसमुद्यते कथयेत्तं न पापीयान् भवेद्वै सोऽपि अतोऽहं कथयिष्यामि सत्यं तुभ्यं न संशयः आदौ राज्ञा च सन्धातुं कथिता राक्षसा अतस्त्वं राक्षसो भागी मदश्शास्त्रे न संशयः तवाग्रे कथितं चेन्मे पापं न स्यात् कदाचन अधः कन्यां प्रदातुं वै विचारय महामदे यदि धातु कृदा कन्या कस्मै चिन्निश्चिदा भवेद तस्मै सा वै प्रदातव्यान्यदा दोषी भवेन्नरः आशाभङ्गमयम् पापम् सम्प्राप्तम् तस्य दैत्यप न कन्या दृश्यते तत्रान्यस्मै दत्ता नरायचेत तदस्तं राक्षसं क्रूरमूचे वै हव्यवाहनः पत्नी भृगोरियं साधो मा गृह्णीष्व परस्त्रियम् अग्नेर्वचनमाकर्ण्य गृहीत्वा राक्षसो ययौ अन्तर्वत्नीं रुदन्तीं च मूर्छिदां स विहायसा तस्यामुदरवासी च भृगोस्तेजो धरो मुनिः कुपिदो राक्षसम्बन्धुं च्युतो वै जठरात् स्वयं तस्य क्रोधानलेनैव भस्मसा दभवत्क्षणाद राक्षससोऽपि सङ्गृह्य पुत्रं स्वगृहमायययौ दुःखिदारुदधि देवी सुलोमाभयविह्वलात् वनात् मृगुत्समायादस्तस्मिन् काले प्रदापवान् रुद्या कथितम वृत्ता मुनया तुवा कुदो योगी साक्षा दुद्रय्वापर उचकोपरद्राक्षनें सो मधुना सर्वक्षो भवपरायण ये सप्वहादेव भृगुरग्निस्व मु सुलो मां सान्द्वयामास पुत्रं स्वं प्रशशंसः उदरातुच्युतक्रोधाच्यवनो नाम सत्तमः तेनायं भविता पुत्रो मदीयो मातृपालकः सुखेन स्वश्रमे योगी भृगुपरमतत्त्वविदपत्न्या पुत्रेण संयुक्तस्थितो गणपतिं स्मरन् ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकादन्तचरिते च्यवनोत्पत्तिकथनं नामैको न चत्वारिंशोऽध्यायः ॐ